मुद्गलपुराणम् खण्डम् फोर् गजाननचरितम् अध्यायम् तर्टि टु माहात्म्यवर्णनम् श्रीगणेशाय नमः दशरथ उवाच मखमासे च सङ्घष्ट्याश्चतुर्थ्या वदमानद माहात्म्यम् प्रीतिदम् पूर्णम् न तृप्तोऽहम् कृपानिधे वसिष्ठ उवाच आन्ध्रदेशे महाराजो बभूवे रैवतान्तरे धर्मदत्त इदिख्यादो ख्यातो नानाधर्मपरायणः यज्वा विनीतकोत्यन्तं नीतिज्ञो किल दोषकृत षष्ठां प्रजापालनतत्परः जलोदरयुधो कस्मादभवन्मानदायकः सार्वभौमोदिपापेन गृहीतः सर्वशास्त्रविदनानोपाया कृतास्तस्य शान्तये नृपसत्तम तथापि रोगनिर्मुक्तो न बभूव महीपतिः तुलादानादिकान्येव महादानानि पीडितः चकाररोगयुक्तस्तदप्यत्यन्तमजा यदा परिभ्रमन् चकार चकारविधिसंयुतः देवताराधनं राजा नाभवद्रोगवर्जितः ततो दिदुःखितो राजा जलेनैवात्मखादनं विषेण नानाजनै नानाजनैः तदो तदोकस्मान् महायोगी चाष्ठावक्रः समाययौ तद्गृह्येतम् नमस्कृत्य पूजयामास बान्धवैः भोजितम् तं प्रणम्यैव कृत्वा करपुटम् नृपः धर्मदत्त उवाचसौ विनयावनदो भवत धर्मदत्त उवाच धन्योऽस्म्यनुगृहीतोऽस्मि सभलो मे भवो भवद तव दर्शनतो विप्रसाक्षाद्योगीश्वरस्य तु आत्मकादेहमुद्युक्तस्तत्र ते दर्शनं महद प्राप्तं पुण्यसमूहेन नरको न भविष्यति वसिष्ठ उवाच एवं वदन्तमानन्दयुक् कुतो योगीन्द्रसप्तमः उवाच तं महाराजं दयया करुणानिधिः अष्टावक्र उवाच किमर्थं देहखादेत्वमुद्यतोऽसि महामदे रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः महीपाल चतुर्थी मुख्यकव्रदं नष्टम् तेन महोग्रेण पापेन संयुधो भवान् राजाराष्ट्रकृतम् पापम् त्वया प्राप्तं तथैव तद् त्वमपि व्रत संहीनः परितोऽसि कार्यम् चतुर्वर्गफलप्रदं तदा कर्मकृदं राजन भलयुक्तं भवेत् किल त्वया धर्मयुगं कर्मकृतं नानाविधं तथा चतुपदार्थहीनं तद् बभूवः जनैकृतं सर्वैः सह जनैराजन्नरके त्वम्पदिष्यसि तदर्थं व्रतराजं तत्कुरु सर्वसमन्वितः यवमुक्त्वा चतुर्ध्यायन्माहात्म्यं मुनिसत्तमः श्रावयामास तस्मै स करुणायुत चेतसा श्रुत्वा मुख्यं समाहात्म्यं धर्मदत्तः सुविस्मितः उवाच तं हि योगीन्द्रं हर्षयुक्तेन चेतसा धर्मदत्त उवाच पूर्वपुण्यं महन्मेस्ति कथनाय न शक्यते मये दृश्यं व्रदं विप्रसुदं तेन महाद्भुतम् अधुना विघ्नराजस्य स्वरूपं मे कथयस्व सदा देवं भजिष्यामि महाप्रभुं न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् यस्येदृश्यं व्रदं मुख्यं सर्वसिद्धिप्रदं भवेत् अष्टावक्र उवाच धर्मदत्तमहाभाग शृणुत्वम् गणपश्य यद् यस्येदृश्यं व्रतं मुख्यं सर्वसिद्धिप्रदम् भवेत् निर्गुणम् गजवाच्यं यद्ब्रह्म मस्तकमेव च तस्य देहः स गुणकम् ब्रह्मयोगे गजाननः सिद्धिर्भ्रान्तिस्वरूपा सा बुद्धिर्भ्रान्तिधरा भवद ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थदः स्वसंवेद्येन योगेन लभ्यदे दर्शनं महद तेन स्वानन्दवासी स कथ्यते योगिभिः प्रभुः संेयकार सो योगेयकारक तयो स्वामी योगेन गणेशानशाग ना पंचध चि्तृ तोहस्तु पंचध सोहम चित मुत्सृज्य लभ्यते चित्तचालकः तेनायम् गणनाधस्तु चिन्तामणिरिदिस्मृतः तम् भजस्व महाभाग तदा शान्तो भविष्यसि येवमुक्त्वा ददौ तस्मै मन्त्रम् मालात्मकम् प्रभुः सविधिम् धर्मदत्ताय तदस्वान्तर्हितो भवद राचापि हर्षसंयुक्तो बभूवादितरां तदः धन्यमात्मानमेवं स्म मन्यदे भाग्यगौरवाद तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा समागदा जनैराजा तां विधानतः ततस्तेन व्रतं मुख्यं तत्सर्वत्र तदो जनावृदं चक्रूर्भूमिस्था यत्र तत्र ते तदोरोगविनिर्मुक्तो धर्मदत्तो बभूवः जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः नित्यं गणपतिं राजा भजच्चानन्यमानसः गणेशप्रिदयेनादानानि स ददौ सदा ततो राज्ञे स्वपुत्रं स संस्थाप्यैकान्त संस्थितः सस्त्रीको गणनाधंस्तमभजध्यानमार्गतः अन्ते जगामविघ्नेशम् तल्लीनः स बभूवः जनाः सर्वे क्रमेण इदे ब्रह्मभूदा बभूविरे एवंव्रदस्यमाहात्म्यं सर्वसिद्धिप्रदायकम् कथितं ते महीपाल महीपालशृण्वन्यत्वं कथानकम् गान्धारदेशवासीयः क्षत्रियः पापकारकः बभूवसपरद्रव्यहारकश्चौर्यमार्गदः द्यूतमध्यरदो नित्यं परस्त्री लम्बडो भवद गोमांसभक्षणे सकृतो मिथ्यावाक्साक्ष्यपूरकः नानाभेदैः सुदुर्बुद्धि कलहं यत्र तत्र वै चकार सर्वदा राजन् हिंसाकर्मपरायणः तदोराज्ञा महापापी वने निष्कासिदो बलाद जखानमार्गगांस्तत्र जन्तून्नाविधान् खलः द्विजादीनां वधे सक्तस्त्रीबालवधकारकः एवं नानाविधं पापं नित्यमेव चकारसः ततो द्रव्ययुदोऽत्यन्दं बुभुजे भोगमुत्तमम् हृदीप्सितं सदुष्टात्मा दुष्टात्मा नानाश्चौरसमन्वितः कदाचित्पर्वतद्रोणीं मखमास्ये स आश्रितः चतुर्थ्यां कृष्णपक्षस्य हिंसार्धं लोभसंयुतः तदो मानवमेकं तु मार्गस्तं स ददर्शः निःसृत्या धावदत्यन्तं शस्त्रहस्तो वधाय वै पपालक्रूरकर्माणं दृष्ट्वा दंसोऽपि भीदिदः तदो दुष्टः पदितं तं समाज्ञाय नरक्रोधसमन्विदः पाषाणेन महादुष्टम् मारयामास मस्तके मस्तकस्फुटितस्तत्र क्षत्रियस्य नराधिप तेन सव्याघुलोत्यन्तं गदचेष्ठो बभूवः रात्रौ चन्द्रोदये किञ्चित् सावधानो भवत् बुधीः पायः स्वल्पं दुःखसमन्वितः तदो मम रपञ्चम्यां गतस्वानन्दके पुरे तत्र दृष्ट्वा गणेशानां ब्रह्मभूतो बभूवः एवं व्रतप्रभावेण पापकर्माः स क्षत्रियः ब्रह्मभूतो बभूवापि किं पुनर् नानाजना व्रदेनैव भोक्त्वा भोगान् हृदीप्सितान् ब्रह्मभूता बभूवुश्च कथितं तन्न इदं कृष्णचतुर्थ्यायन्माहात्म्यं मलमासके शृणोदि यस्तु पठति स ईप्सिदमवाप्नुयाद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिदे मखमासकृष्णपक्षचतुर्थीमाहात्म्यवर्णनम् नाम द्वात्रिंशोऽध्यायः ओम्